करुडपुराणम् आचारकाण्डम् अध्यायम् 171 अण्ड् सेवेण्टी वन् धन्वन्तरिरुवाच नाडीव्रणादिरोगाणाम् चिकित्साम् शृणुशुश्रुत नाडीम् नाजीनां सम्पाट्य नाजीनाम् व्रणवत्क्रिया गुग्गुदत्रिफलाव्योपैः समांशैराज्ययोजितैः नाडी दुष्टव्रणम् शूलम् भगन्तरमधो जयेत निर्गुण्डीरसतस्तैलम् नाडी दुष्टव्रणापहम् हिदम् पापामयानाम् तु पानाभ्यञ्जननावनैः गगुदिःफला कृष्णात्रिपञ्चैकांशयोचिता कुडिकाश्योदगुल्मार्षोभगन्तरवताम् हिता ध्वजमध्ये शिरा वेद्धे विशुद्धिरुपदंशके पाको रक्ष्यप्रयत्नेन शिश्रक्षयकरो हि सहा पडोलनिम्बक्तृलागुडुचि क्वाधमापि भेद सग्गुग्गुलुं सखदिरमुपदंशो विनश्यदि दहेत्कडाहे त्रिफलां सामसीं मधः संयुधाम् उपदंस्ये प्रलेपोय सद्यो लोपयदे व्रणम् त्रिभलानिम्ब भूनिम्बकरञ्च खदिरादिभिः कल्खैक्वाधैर्हृदम् पक्वमुपदं शहरम् परम् आदौ भग्नं विदित्वादु शेच्चयेच्छीतलाम्बुना पक्वेनालेपनम् कार्यम् बन्धनम् चकुशान्वितम् माषम् मांसम् तथा सर्पिः क्षीरम् यूषः सति जलः बृंहणम् चान्नपानम् स्यात् प्रदेयम् भग्नरोगिणे रसो नमधुना साज्यसिता कल्कं समश्नुदा छिन्नभिन्नच्युदास्थीनां सन्धानमचिराद्भवेद अश्वद्धत्रिफलाव्योषसवरभि समीकृतैः तुल्यो गुग्गुलुना योज्ये भग्नसन्धिप्रसाधकृत शर्वकुष्ठेषु वमनम् रेचनम् रक्तमोक्षण वचा वासापडोलानाम् निम्बस्य कलिनी त्वचः कषायो मधुना पीदो वादहृन्मदनान्विदः विरेचनम् प्रयोक्तव्यम् त्रिवित्कर्णफलत्रिकैः मनःशिलाम्मरीचैस्तुतैलं कुष्ठविनाशनं सर्वकुष्ठे विलेपोऽयं शिवा पञ्चगुडौदनं गोमूत्रेण प्रलेपदः करवीरोद्वर्तनं च तैलाकृस्य कुष्ठहृद हरिद्रामलयम् रास्ना गुडु गजस्तधा गुडुच्ये गुरुच्येडगजस्तधा आरग्वधकरञ्जश्च लेभकुष्ठहरः परः मनशिलाविडङ्गानि वागजीसर्षपास्तधा करञ्जैर्मूत्रपिष्ठोऽयं लेभ पुष्टहरोर्कवद विडङ्गैडवच कुष्ठनिसिन्धूधसर्षपैः मूत्राम्लपिष्टो लेपोऽयं ददृकुष्ठविनाशनः प्रपुन्नाड सुबीजानि धात्री सर्जरस स्नेः स्नुहि सर्जरसस्नुहि सौवीरपिष्टम् ददृणामे ददुद्वर्तनम् परम् आरग्वधस्य पत्राणि आरनालेन पेषयेद ददृ किट्टिमकुष्ठानि हन्दि सिद्ध हन्दिसिद्ध्मानमेव च उष्णोपीदा वागुजीज कुष्ठजित्क्षीरभोजनः तिलाज्यत्रिफला क्षौद्रव्योषफल्लादशर्कराः वृष्यासप्तसमामेध्या कष्टः कामचारिणः विडङ्गत्रिफला कृष्णाचूर्णम् लीढम् समाक्षिकं हन्दिकुष्ठकृमि मेघनाडीव्रणभगन्तरान् यःखादेदभयारिष्ठमजिष्ठामलकानिशाह स जयेत् सर्वकुष्ठानि मासादूर्ध्वम् दह्यमानायुधकुम्भे मूलगे खदिराङ्गुरः साक्षधात्री रसः क्षौद्रो हन्यात्कुष्ठं धात्री खदिरयो काफम् रात्री खदिरयो काध्वम् पीत्वा वागजिसंयुधम् शङ्खेन्दुतवलं स्वित् म् हन्दितोर्णम् न संशयः पीत्वा भल्लादगम् तैलम् मासाद्व्याधिम् जये नरः सेवितम् कादिरं वारि पानाद्यै कुष्ठजिद्भवेद् भाविदम् मलपूक्वाधै सोमराजी फलम् बहु कर्षं भक्षेदलवणो ह्यक्ष भल्गुश्रुदं पिबेद हन्दिष्वित्रमसाध्यं च लेपे योज्या पराजिता वासाशुद्धा शुद्धा पडोलं च करञ्चकम् निम्बाशनं कृष्णवेत्रं क्वाध कल्केन यद्धृतम् वज्रकम् तद्भवेत्कुष्ठम् शतवर्षाणि जीवति स्वरसेन च दुर्वायाः पचेत्तैलं च दुर्गुणम् कच्युर्विचर्चिका पामा अभ्यङ्गादेव नश्यदि द्रुमत्वगर्ककुष्ठानि लवणानि च मूत्रकम् गम्भारिका चित्रकैस्तैस्तैलम् कृष्णव्रणादिनुद अम् अधा म्लपित्तचिकित्सा धात्री निम्बफलं तद्वद्गोमूत्रेण च चित्रकम् वासा मृदा पर्पणिका निम्बभू त्रिफला कुलधैक्वाधः सक्षौद्रचाम्लपित्तः फलत्रिकम्पटोलं च तिक्तक्वाधःसितायुधः पीदो यष्ठीमधुयुधो ज्वरच्यम्लपित्तजिद वासाकृतं तिक्तकृतं पिप्पलीकृतमेव च अम्लपित्ते प्रयोक्तव्यं गुडकूष्माण्डकं तथा पिप्पली मधुसंयुक्ता अम्लपित्तविनाशिनी श्लेषमाग्नि माद्य श्लेष्माग्नि मान्द्यनुत्पद्यी गुडमोदकः पिष्ट्वाजाजीं सधन्याकां कृप्रस्थां विपाचयेद कफपित्ता रुचिहरं मन्दानलवमिं हरेद इत्यम्लपित्तचिकित्सा पिप्पल्यमृदभून्निम्बवास कारिष्टपर्पणैः कदिरारिष्टकैक्वाधो विस्फोडार्त्विस्फोडार्ति ज्वरापहः त्रिफलारससंयोक्तम् सर्पिस्त्रीवृत्रया सह प्रयोक्तव्यं विरेकार्थं विसर्पज्वरशान्दये खादिरात्रिफलारिष्टपडोलामृतवासकैः क्वाधोष्टकाख्यो जयतिरोमान्तिकमसूरिकाम् कुष्ठवीसर्पविस्फोटकण्ड्वादीनां विघातकः लशुनानां तु चूर्णस्य हर्षो मशकनाशनः ीलं जरुमणिं मशकां स्थिलकालकान् उत्कृत्य शस्त्रेण दहे शागन्ग्निमां शागग्निभ्यामशेषदः पडोलनीलीले प्याज्जालर्दभरोगनुद गुञ्जाफलैश्रुतं तलम् वादव्यादि भृङ्गराजरसेनदु कण्ठदारुणकृत्कृष्टवादव्यादिविनाशनम् अर्कास्तिमज्जात्रिफलानालीच्छा भृङ्गराजगम् जीर्णे पक्वे लौहचूर्णम् काञ्चीकम् कृष्णकेशकृद क्षीरात् स शर्करः साद्विप्रस्थो मधुकात्पले तैलम्यकुडवं पक्वं तन्नस्यं बलिदापहं मुखरोगेदु त्रिफला गण्डूषपरिधारणं गृहधूमयवाक्षार गृहधूमयवक्षारपाठाव्योपरः तेजोदं त्रिफलालोद्ध्रं चित्रकं चेदिचूर्णिकं सक्षौद्रं धारयेद्वक्त्रे ग्रीवादन्दास्यरोगनुद पडोलनिम्बजम्बाग्रमालधीनवपल्लवः पञ्चपल्लवकश्रेष्ठः कषायो मुखधावने लशुनार्द्रकशिघ्रूणा पारुल्या मूलकस्य च रुदन्त्याश्चरसश्रेष्ठकदुष्णकर्णपूरणे तीव्रशूलोत्तरे कर्णे सशब्दे क्लेदवाहिनी भक्तमूत्रम् क्षिपेत् कोष्णम् तैलं सैन्धवेणावचूर्णितं जातिपत्ररसेत्तैलम्पक्वम्पूदिकर्णजिद शुण्ठितैलं सार्षपं च क्रोष्णं स्यात् कर्णशूलनुद पञ्च मूली श्रुतं क्षीरं स्याच्चित्रकहरीतकी सर्पिर्गुडषडङ्गश्च यूषः पीन सशान्तये अक्षिकुक्षिभ्वा रोगा प्रदिश्यायव्रणज्वराः पञ्चैदे पञ्चरात्रेण प्रशमं यान्द्रि लङ्घनाद धात्रीरसानाञ्जदृशकोपं हरदिपूरणाद सक्षौद्रसैन्धवो वाभिषिघृदार्विरसाञ्चनम् हरिद्रादारुसिन्धुद्धपध्या जनवगौरिकैः पिष्टैर्दत्तो बहिर्लापो नेत्रव्याधिनिवाजकः मृदभ्रष्टाभयाले पात्रिफलाक्षीरसंयुधा शुण्ठीनिम्बदलै पिष्टै सुखोष्णै स्वल्पसैन्धवैः दार्यश्चक्षुषि सङ्क्षेपाच्चोदकण्डूरुजाभहः अभयाक्षामृदं चैगद्वि चतुर्भागिकं युधम् मध्वाज्यलीढं क्वाथो वा सर्वनेत्र रुगर्दनं चन्दनत्रिफलापूग पलाशतरुमूलकैः जलपिष्ठैरियं वीर्तिरशेषतिमिरापः दध्नादिघृष्टं मरिचं रात्र्यान्ध्यापहमञ्चनं त्रिफलाक्वाधकल्काभ्याम् सपयस्कं श्रुतं घृदम् तिमिराण्य चिरा धन्यात्पीद मे धन्निशामुखे पिप्पली त्रिफला द्राक्षालोकचूर्णं ससैन्धवम् भृङ्गराजरसैर्घृष्टं कुडिकाञ्चनमिष्यदे आन्ध्यं सतिमिरं काचं हन्ध्यन्यान्येत्ररोगकान् त्रिकडुत्रिफलानक्रसैन्धवं च मनःशिला रुचकम् शङ्खनाभिश्च जादीपुष्पाणि निम्बकम् रसाञ्जनम् भृङ्गराजम् घृधम् मधुपयस्तथा यदत्पिष्ट्वा च वटिका सर्वनेत्र रुगर्दिनी दग्धमेरण्डकं मूलं लेपात्काकिकपेक्षितं शिरोर्तिं नाशयत्याशुपुष्पं वा मुचुकुन्दकम् शतमूल्यैरण्ढमूलचक्राव्याक्रीपलै श्रुतम् तैलं नस्य मरुश्लेष्मदिमिरोर्ध्वर्ध्वगदापहम् नाचनं सगुदं विश्वं पिप्पली वाससैन्धवा भुजस्तम्भादिरोगेषु सर्वेषूर्ध्वगदेषु च सूर्यावर्ते विधातव्यं नस्य कर्मादिभेषजं दशमूलीकषायं तु सर्पि सैन्धवसंयुधं नस्य मङ्गविभेदघ्नं सूर्या वर्तशिरोर्तिनुद्ना सौवर्चलाजाजी मधूकं नीलमुत्फलं पिबेत् क्षौद्रयुधं नारी वादात्सृ ीडिदा वासकस्वरस्सम्पैते गुडूच्या रसमेव वा जलेनामलकिबीजं कल्कं वाससिदा मदु। आमलक्या आमलख्या मधुरसम्मूलं कार्पासमेव वा पाण्डुप्रदरशान्त्यर्थं पिबेत् तण्डुलवारिणा तण्डुलीयकमूलं दुः सक्षौद्रे सरसाञ्जनं तण्डुलोदकसंविधं सर्वांश्चासृक्धराञ्जयेद कुशमूलं तण्डुलाद्भिपीदं चासृक्दरं जयेद इति श्री गारूडे महापुराणे आचारकाण्डे नाडी व्रणादिचिकित्सावर्णनम् नामैकसप्तत्युत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् सेवेण्टि टु च वक्ष्ये सुश्रुततच्छृणु यो निव्यापत्सुभूयिष्टम् शस्यदे कर्मवादहिद वचोपकुञ्चिकाजादिकृष्णावासकसैन्धवम् अज मोदाय वक्षारम् चित्रगं शर्करान्वितम् तिष्ठ्वा लोढ्यजलाद्यैश्च साधये धृतभर्जितं योनिपार्श्वार्ति हृद्रोगुल्मार्शो विनिवर्तयेद् बदरीपत्र संलेबाद्यो निर्भिन्ना प्रशाम्यदि लोध्र तुम्बिफलालेबाद्यो नेर्दार्ढ्यं करोति च पञ्चपल्लव पिष्टाह्वमालदीकुसुमैर्हृदं रविपक्वमसृग्धारं योनिगन्धविनाशनं स काञ्चिकं जपपुष्पपुष्पं ज्योतिष्मदीदलं दोर्वा पिष्टं च सम्प्राश्य चित्रकं शर्करान्वितम् ्या त्र्यञ्चनाभया चूर्णं तोयपीदं रजो हरेद स दुग्धा लक्ष्मणापीदा न स्याद्वा पुत्रदा हृदौ दुर्धा दुग्धस्यार्धाढकं चाज्यमश्वगन्धा पुत्रदा वन्ध्या पुत्रं लभेत् व्योपकेसरम् कुश काश्योरुकानाम् मृलैर्गोक्षुरपश्य च श्रुतं दुग्धं सिदायुक्तम् गर्भिण्या शूलनुत्परम् पाठालाङ्गलि सिंहाम्यमयूरकुडजैपृथक नाभिभस्ति भगाले वात्सुखं सुदाया हृचिरोबस्तिशूलमर्पन्दसंनिधं यवक्षारं पिबेत्तत्रमस्तु कोष्णोदकेन वा दशमूलीकृतवा कृदा, दशमूलीकृदक्तादः साज्य मूदिरुजापहः शास्तिलण्डूल चूर्णम् तु स दुर्धम् दुग्धकृद् भवेद कार्पासजं कन्दस्वरसम् मूलम् कार्पा सजम् कुष्टावचाभया भ्रामी मधुरा क्षौद्र सर्पिषा वर्णायुक्न्तिजननं लेह्यं वालम्यदापयेद स्तन्याभावे पयच्छागं गव्यं वा तद्गुणं पिबेद स्वेदनं नाग्निशोधार्थे मृदा स्यादग्नितप्तया देहोमुस्तविपायाश्च वमिका सज्ज्वरेऽपि भेद सुस्तशुण्डीविषविल्वकूजैरधिसारनुद मधुव्योषमाधुलुङ्गं हिक्काच्छर्दि निवारणं कुष्ठेन्द्राय वसिद्धार्थानिशा दुर्वाजकुष्ठजिद महा मुञ्जिदि कोजिच्यकाधैस्नानं ग्रहापवं सप्तच्छदामय निशाचन्दनैश्चानुलेपनं शङ्काब्जबीजरुद्राक्षवचालौहादिधारिणम् ॐ कंटं यं गं वैनदेयाय नमः ॐ हों मन्द्रेण शान्तिर्वालानां मार्जनाद्वलिदानदः ॐ ह्रीं बालं म्रहाद्वलिं गृण्णीतवालं मुञ्जद स्वाहा तण्डुलाद्भिश्चिरीपस्य फलम् पीदम् विशापहं तण्डुलाद्भिश्च वर्षाभुवाः शुक्लायाः सर्पदं शनाद दध्याज्यं तण्डुलीयं च निशातधा पिष्टंपानं तथा क्षौद्रं सिन्धृद्धस्य विपान्तकम् अङ्गोडमूलनिष्क्वादसाध्यपीदो यज्जराव्यादिविध्वंसिभे शजं तद्रसायनम् सिन्धोत्यरार्करा सुण्डीकणा मधुगुढैक्रमाद वर्षाद्विश्वभया सेव्या रसायन गुणौषिणा जरस्यां देभयां चैकां प्रभुङ्े दे द्वे भुक्त्वा मध्वाज्य धात्रीणाम् च दुष्कम् शतवर्षकृद पीताश्वगन्धापयसा कृते नाशोपरो गनुद मण्डूगपर्ण्याः स्वरसो विदार्याश्चामृदोपमः किल धात्रीभृङ्गराजौ जग्ध्वा वर्षशदी भवेद त्रिकडुत्रिफलावन्निर्गुडुची च शदावरी विडङ्गलोहचूर्णं तु मधुना सहरोगनुदत्रिफला च कणाशुण्डी गुडुची च शदावरी विडङ्गभृङ्गराजादिभाविदं सर्व रोगनुद चूर्णं विदार्यामद्वाज्यं लिढ्वा दशस्त्रियो व्रजेद कृतं सदा वरी कल्कैः क्षीरैर्दशगुणैः पचेद शर्करा पिप्पली क्षौद्रयुक्तं वा जारकं विदुः प्रति मर्षो वपीडश्च नस्यं प्रवचनं तथा शिरो विरेचनं चेदि पञ्चकर्म च कथ्यते मासैर्द्विसङ्घैर्माखाध्यैक्रमात् षडृतवस्मृताः अग्निसेवा मधुक्षीरविकृधिः परि पेवयेद त्रियुक्तशिशिरे तद्वद्वः सन्तेन दिवा स्वपेद त्यजेद्वर्षासु स्वप्नादिश्चरदिन्दोश्चरश्मयः पध्यानिशालयो मुद्रा निम्वाद सी सीकुसुम्भानां शिग्रुसर्षपयोस्तद्धा ज्योतिष्मदीमूलकानां तैलानि च हरन्तिः कृमिकुष्ठप्रमेहांश्च वादश्लेष्मशिरोरुजः दाढिमामलकिकोलकरमपियालकम् जम्बीरं नागं च आम्रतकपिन्धनं पित्तलान्यनिलग्नानि कपोत्क्लेशकराणि च जलं जीमोदकेक्ष्वाकुकुडजागृदबन्धनं धामार्गवश्च संयोज्य सर्वदा वमनेष्वी वमनेष्वी पूर्वाह्ने वमनायेदे मदनेन्द्रयवी वचा मृदुकोष्ठश्च पित्तेन करो वादकपाश्रयाद मध्यमसमदोषे वृत्तिदे विरेचनं शर्करा मधुसंयो सैन्धवं नगरं त्रिवृद हरीतकी विहङ्गानि गोमूत्रेण विरेचनम् ये रण्डतैलं त्रिफलाक्वाधश्च द्विगुणस्तथा बाधोल्बणेषु दोषेषु भोजयित्वा धवामयेद वंशादिनेत्रं गुर्वीद पडष्टद्वादशाङ्गुलम् कर्कन्तृफलवच्छिद्रं वस्तिरुक्तानशायिने निरूहदानेऽपि विधिरयमेवमुदीरितः अर्धत्रिपट्पले मात्रा लघुमध्योत्तमक्रमाद पध्याक्ष गद्विज त्र्यो गद्विचतुर्भागरुगर्दनाः शतवर्यसृदाभृङ्गसिन्धुवारादिभाविताः इति श्रीगारूडे महापुराणे आचार्यकाण्डे स्त्रीरोगचिकित्साधिकयनं नाम त्युत्तरशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् सेवेण्टि त्रि धन्वन्तजिरुवाच द्रव्याणि मधुरादीनि वक्ष्ये रागहराण्यहम् शालिषष्टिकगोधृमक्षीरम् हृदम् रसामध मज्जाशृङ्गाढयव कस्येर्विवारुगीक्षुरं गम्भगी पौष्करम् बीजं द्राक्षा खर्जूरकम्बला नारिकले क्ष्वात्मनुप्ता विदारी च प्रियालकं मधुगं तालकष्माण्डम् मुखोऽयं मधुरोगणः मूर्च्छादाहप्रशमनपडिन्द्रियप्रसादनः कृमिकृत्कफकृच्चैव एकोद्यर्थनिफे विदः श्वासकासाम्यमाधुर्यस्वरकादार्बुदानि च गलघण्टश्रीपदानि कुडलेपादिकारयेद दाडिमामलकाम्रं च कपिद्धकरमर्दकौ माधुलुङ्गाम्राधकं च बदरम् पिन्दडीफलम् दधितक्रम् काञ्चिकम् च लकुचं चाम्लवेतसम् अम्लो जारणः पाचनो रसः क्लेदनो वादकृधृप्यो विदाही चानुलोमनः अम्लोत्यर्थं सेव्यमानकुर्याद्धै दन्तहर्षकम् शरीरस्य च शैथिल्यं स्वरकण्डास्य हृद्दहेद छिन्न भिन्नभ्रणादीनि पाचयित्वाग्निभाविदः लवणानि यवक्षारसर्जिकादिश्च लावणः शोधनपाचनक्लेदी विश्लेष सर्पणादिकृत मार्गरोधी मार्दवकृत्स एकपरिषेविदः गात्र कण्डूकोष्ठशोधवैवर्ण्यं जनयेद्रसह रक्तवादम् पित्तरक्तं पुंस्त्वेन्द्रियरुजादिकं व्योषशिघ्रूमूलगं देवदारुजपुष्टकं लशुनं वल्गुजीबलं मुस्ता गुग्गुल गुग्गुलुलाङ्गली कडुगोदीपनशोधी कुष्ठकण्डूकपान्तकृद स्तौल्यालस्य कृमिहरशुक्रमेधो विरोधनः एकोक्यर्थं सेव्यमानभ्रम दाहादिकृद् भवेद कृतमालकीराणि हरिद्रेन्द्रयवस्तथा स्वादुकण्डकवेत्राणि बृहदिद्वयशङ्घिनी <coughs> गुडोची चन्द्रवन्दीजत्रिवृन्मण्डूकपर्ण्यपि का कारवेल्लकवार्ता का कुकरवीरगवासकाः रोहिणी शङ्खचूर्णं च कर्कोडो वैजयन्तिका जादिवारुणकं निम्बोज्योदिष्मदी पुनर्नवा तिक्रोरसश्च धनस्याद्रोचनी दीपनस्तथा शोधनोज्वरतृष्णाघ्नो मूर्छा कण्डार्तिकादिजद विन्मोत्रक्लेदः संशोषो ह्यत्यर्थम् सजसेविदः हनुस्तम्भाक्षेप कार्तिशिरशूलव्रणाधिकृत त्रिफला सल्लकी आम्राद आम्रादकवचादिकं किन्दुकं वकुलं शालं पालङ्गी मुद्गचिल्लकम् कषायो ग्राहकोरोऽपि स्तम्भनक्लेदशोषणः एकोप्यर्थम् सेव्यमानो हृदये चाधपीडकः मुख शोषज्वराध्मानमन्यास्तम्भादिकारकः हरिद्राकुष्ठलवणमेष श्रृङ्गिबलाद्वयम् कच्छुरासल्लगीपादा पुनर्नवाशदावरी अग्निमन्दो ब्रह्मदण्डीश्वदंष्ट्रैरण्डके तथा यवकोलकुलधादिकर्षाशी दशमूलकं पृथक् समस्तोवादादोर्बहु पित्तपरस्तथा सदा वरीविदारीज बालकोशीरचन्दनं दुर्वा वडपिप्पलीजबदरी सलगी तथा कदलीचोत्पलं पद्मा मुदुम्बरपडोलकान् अधश्लेष्महरोवर्गो हरिद्रा गुडकुष्टकम् शतपुष्पी च जादीजभ्यो शारग्वधलाङ्गुली सर्पिस्तैलवसामज्जास्नेहेषुप्रवरं स्मृतं तद्धाद्धि स्मृतिमेधाग्नि काङ्क्षीणां शस्यदे हृदं केवलं पैतिके सर्प्यर्वादिके लवणान्विधम् देयं बहु कभेवाभिभ्यो चक्षारसमयुधं ग्रन्थिनाडी मेदो मारुदरोगिशु तैलं लाखवदार्ढ्यायक्रूरकोष्ठेषु देहिषु वातातपाम्बु भारस्त्री व्यायामक्षीणधातुषु रूक्षक्लेशक्षयात्याग्निवादावृतपधेषु अध दग्ध्वा शिराजालम् योनिकर्म शिरोरुचिम् उत्तमस्य फलम् मात्रा जखन्यस्य पलार्धेन स्नेहक्वाधौषधेषु च जलमुष्णं कृ देयं तु शस्यते दे। स्नेहे सेनेहे पित्ते तुदृष्णायां पिबे दुष्णोदगं नरः वादानुलोमं दीप्ताग्रर्वर्चस्निग्धस्य तन्मदं रुक्षम्य स्नेदृणं कार्यमभिस्निग्धस्य रूक्षणं श्यामाकघोर का दोषान्नद कृपिण्याकसकुभिः वादश्लेष्माणि वादे वा कभे वा स्वेद इष्यदे न स्वेदये ददिं स्थूलरूक्ष दुर्बलमूर्झितान् इति महापुराणे आचारकाण्डे योगसमधिवर्णनं नाम त्रि सप्तन्युत्तरशततमोऽध्यायः ॐ गरुडपुराणम् आचारकाण्डम् अध्यायं हण्ड्रेड् एण्ड् सेवेण्टि फोर् धन्वन्तरिरुवाच कृतैलादिवक्ष्यामि शृणु सुश्रुतरोगनुद शङ्खपुष्पीव च सोमा ब्राह्मे ब्रह्मसुवर्चला अभया च गुडूची च अडरूपगवागुजी यदैरक्षसमैर्भागैर्भृदप्रस्थं विभाचयेद कण्डकार्या रसप्रस्थक्षीरप्रस्थममन्वितम् ये दद्भ्राह्मीकृतं नाम श्रुतिमेधाकरं परं त्रिफला चित्रकबला निर्गुण्डीनिम्बवासकाः पुनर्नवा गुडूचीजबृहदीजशदावरी येतैर्कृतं यथा ये लाभं सर्वरोगविमर्दनं बला शतकषायेतु तैलस्यार्धाठकम् पचेद कल्कैर्मधूकमञ्जिष्टा चन्दनोत्पलपद्मकैः सूक्ष्मैला पिप्पलीकृष्टत्वगेला गुरुकेसरैः गन्ताश्वजीवनीयैश्च क्षीराठकसमाश्रुधन् ये तन्मृद्वग्निनापक्वं स्थापयेद्राजदेशुभे सर्ववादविकारांस्तु सर्वदात्वन्तराश्रयान् तैलमेतत्प्रशमयेद्वल्ल्याख्यं राजवल्लभं सदा वरीरसप्रस्थं क्षीरप्रस्थम् तथैव च शतपुष्पं देवदारुमासी शैलेयकम्बलां चन्दनं तगरं कुष्ठं मनःशिलाज्योतिष्मदी येधैकर्षसमयिकल्खै कृदप्रस्थं विवाच येद कुब्जवामनपङ्गूनां बधिरव्यङ्गकुष्ठिनाम् वायुना भग्नगात्राणां ये च सीदन्तिमैथुने जराजर्जरगात्राणां चाध्मानमुखशोषिणां त्वगदाश्चापि ये वाद शिरास्नायुगदाश्च ये सर्वां स्थान्नाश्रयत्याशु तैलं रोगकुलान्धकम् रायणमिदं तैलं विष्णुनोक्तं रुगर्दनं पृथक् तैलं हृदं कुर्या समस्तैरौषधैः पृथक् शतावर्या गुडुच्यावा चित्रकै गोचनान्वितैः निर्गुण्ढ्या वा प्रसार स्यात् कण्ठकार्या रस्सादिभिः वर्षाभुवालया वापि वासकनफलत्रिकैः ब्राह्मया चैगण्ठकेनापि भृङ्गराजेन कुष्टिना मुत्सल्यादशमूलेन खदिरेण वडादिभिः वटिकामोदको वापि चूर्णस्य सर्वरोगनुद हृदेन मधुना वापि अद्धिःखण्डगुडादिभिः लभणैकडुकैर्युक्तम् यथा लाभं च गेगनुद चित्र कार्कत्रिविद्वापि यवानीहयमारकम् सुधां जबायां गणिकाम् सप्त पर्णसुवर्चिकाम् ज्योतिष्मदीं च संभृत्य तैलं धीरो विपाचयेत येदन्निष्यन्तनं तैलं भृशं दद्याद्भगन्धरे शोधनं गपणं चैव सर्ववर्णकरं परं चित्रकाद्यं महातैलं सर्वरोगप्रभञ्जनम् अजमोदं ससिन्धूरं हरितालं निशाद्वयं क्षारद्वयं फेनयुतमार्द्रकसरशवलोद्भवम् इन्द्रवारुण्यपामार्गकदलै स्यन्धनैः समं येभिः सर्षपजं तैलमजामूत्रैश्च योजितं मृद्वग्निना पचेदेगव्यक्षीरेण संयुगम् अजमोदादिकं तैलं गण्डमालां व्यबोहति विदग्धस्तु पचेत्पक्वं चैव विशोधयेद रोपणमृदुभावं च तैलेनानेन कारयेद इति श्रीगारूडे महापुराणे आचारकाण्डे ्राह्मीकृतादिवर्णनं नाम चतुसप्तत्युत्तरशततमोऽध्यायः ओ अध्यायम् हण्ड्रेड् अण्ड् सेवेण्टि फैव् रुद्र उवाच एवं धन्वन्तरिर्विष्णुः सुश्रुतादिनुवाचः हरिः पुनर्हरायाः नाना योगान् योगान् नुगर्दनान् हरिरुवाजा सर्वज्वरेषु प्रथमं कार्यं शङ्करलङ्घनं क्वथितोदकपानं च तथा निर्वादसेवनम् अग्नि स्वेदाज्वरास्त्वेवं न <Sess> <Sess> रहरक्वाधो गुडोच्यामुस्तकेन च दुरालम्भश्चैव कृतं पितज्वरहरशृणु शुण्डी पर्पणमुस्तैश्च बालको शीरचन्दनैः साजक्वादश्लेष्मजन्तु स शुण्डी सदुरालभः सवालक स शुण्डिस्सह पर्पडः किरातदिैर्नारी गुडूजी शुण्डिमुस्तकैः पित्तज्वरहरस्याच्च शृण्वन्यं योगमुत्तमम् बालकोशीरपादाभिः कण्डकारिकमुस्तकैः ज्वरनुच्चकृतक्वाधस्तथा वै सुरदारुणा धन्यागनिम्बमुस्तानाम् समधुः सदुशङ्कर पडोलपत्रयुक्तस्तु गुडोची त्रिफलायुधः पीदो किल ज्वरहरः क्षुधा कृद्वा तनुत्विदम् हरीतगी पिप्लीना मामली चित्रकोद्भवम् चूर्णं ज्वरं च क्वथितं धान्यकोशीरपर्कडैः अमलक्या गुडुज्याजमधुयुक्तं सचन्दनं समस्तज्वरनुच्चस्य सन्निपातहरं शृणु हरिद्रा निम्बत्रिभलामुस्तकैर्देवदारुणा कषायं गडुरोहिण्या सपटोलं सपत्रकम् त्रिदोषज्वरनुच्चस्यापीदं तु क्वथितं जलं कण्डकार्यानागरस्य गुडूच्या पुष्करेण जग्ध्वानागबलाचूर्णं श्वसकासादिनुद्भवेद कफवादज्वरे देयं जलमुष्णं पिपासिने विश्व पर्पणकोशीरमुक्तचन्दनसाधिदं दद्यात्सु शीतलं वारितृच्छर्दिज्वरदाहनुद बिल्वादिबपञ्चमूलस्य क्वाधस्याद्वादिगे ज्वरे पाचनं पिपलिमूलं गुडृची विश्वभेषजं वादज्वरे त्वयं क्वाधो दत्त शान्तिकरः परः पित्वज्वरघ्नसमधुक्वाध पर्पडनिम्बयोः विधाने क्रियमाणेऽपि यस्स य संज्ञान जायते पादयोस्तु ललाडे वा दहेल्लौहशलाकया तिक्दापाडा पर्पडाश्च विशाला त्रिफला त्रिविद सक्षीरो भेदनक्वाद सर्वज्वर वेदनक्वाथसर्वज्वरविशोधनः इति श्रीगारूडे महापुराणे आचारकाण्डे ज्वरः रनायोगादिवर्णनम् नाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् सेवेण्टि सिक्स् श्रीभगवानुवाच सप्तरात्रात् प्रजायन्ते कल्वाढस्य कजाशुभा दग्धहस्ति दन्तलेपाद् साजा क्षीररसाञ्जनाद भृङ्गराजरसेनैव चतुर्भागेन साधितम् केशवृद्धिकरं तैलं गुञ्जाचूर्णान्वितेन च येला मांस्यीकुष्ठमुरायुक्तमभ्यङ्गदशिवं गुञ्जाफलं समादेयं लेपनं चन्द्रलुप्तनुम् आम्रास्तिचूर्णलेपाद्वैकेशा सूक्ष्मा भवन्ति च लाल लेपो मज्जा करञ्जामलकैलाललाक्षालेपोरुणापहव आम्रास्तिमज्जामलकलेपात् केशा भवन्ति वै बद्धमूलाघनादीर्घा स्निग्ध्यास्युर्नोत्पतन्ति च विड्डङ्गगन्धपाषाणसाधिदं तैलमुत्तमं स च दुर्गुणगोमूत्रमनसशिलमेव वा िरोभ्यङ्गाचिराजन्मयूकालिक्याः क्षयम् नयेत् नवदग्धम् शङ्खचूर्णम् हृष्टसी स कलेपिदम् कचा सृष्णा महाकृष्णा भवन्ति वृषभध्वज भृङ्गराजम् लोकचूर्णम् त्रिफला बीजपूरकम् गुडमेधै समं श्रुतं फलितानि फलितानीह कृष्णानि कुर्या लेपान् महौषधम् अम्बास्तिमज्जात्रिफला नीली च भृङ्गराजकं जीर्णं पक्वं लोहचूर्णं काञ्चिकं कृष्णकेशकृत चक्रमर्धकबीजानिकुष्ठमे रण्डमूलकम् अत्यम्लपाञ्चिकं पिष्ट्वा लेपान्मस्तकरोगनुद सैन्धवं च वजा हिङ्गुकुष्ठं नागेश्वरं तथा शतपुष्पादेवदारुयेभिस्तैलं तु साधितं भोपुरीपरसेनैव चतुर्भागेन संयुतं तत् कणभरणा दुग्रकर्णशूलं क्षयं नयेदमूत्र सैन्धवाभ्यां कर्णयो भरणाच्चिव कर्णयो पूदिनाशस्यात्कृमिस्त्रा वाधिकस्य च मालदी पुप्पदलयो रसेन भरणा गोजले गोजलेनैव पूरेण भूयस्त्रावो विनश्यदि कष्टमाशमरीचानि सगरम् मधुपिप्पली अपा मार्गोश्वगन्धा च बृहदी सिधसर्षपाः यवास्तिला सैन्धवम् च पादिकोद्वर्दनम् वल्कलयसाधितैर्लिप्तम् लिङ्गम् तेन विवर्धते इति श्रीगारुडे महापुराणे आचारकाण्डे केशोत्पत्यादिवर्णनम् नाम षट्सप्त्युत्तरशततमोऽध्यायः ओम्